श्रीदुर्गायै नमः श्रीदुर्गाष्टोत्तरसत्नामस्तोत्रम् ईश्वर उवाच सत् नाम प्रवक्ष्यामि शृणुष्व कमलानली यस्य प्रसादमात्रेण दुर्गाप्रीता भविष्यति ॐ सती साध्वी भवप्रीता भवानी भवमोचनीम् आया दुर्गा जयाचारिनेशूलधारिणी पिनाकारीणी चिंत्रा चंडघंटा महात मनोबुद्धिहंकारा चिपा चिताचि सर्वंत्रमयी सत्ता सत्यानंदस्विणी अनंता भावी भाव्या भव्या भव्या सदा गतिः सा देवमाता चित्ना चिन्ता रत्नप्रिया सदा सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी अपर्णालिकवर्णा च परिधाना पट्टाम्बरपरिधाना कलमञ्जीरञ्जिनी अमेयविक्रमाक्रूरा सुन्दरी सुरसुन्दरी वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता ब्राह्मीमाहेश्वरी चैन्द्री कौमारी वैष्णवी तथा चामुण्डा चैव बाराही लक्ष्मीश्च पुरुषाकृतिः विमलोत्कर्षिणी ज्ञाना प्रिया नित्या च बुद्धिदां बहुलब्रहुं बहुलप्रेमा सर्ववाहनवाहना निशुम्भशुम्भहननी महिषासुरमर्दिनी मधुकैटवहन्ती च चण्डमुण्डविनाशिनी सर्वासुरविनाशा च सर्वदानवभातिनी सर्वसास्रमयी सत्याम् सर्वास्यो धारिणी तथा अनेकशस्त्रहस्ता अनेकास्त्रस्य धारिणी कुमारी चैककन्या च कैशोरी युवतीयतिः अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा महोदरीमुक्तकेशी घोररूपी महाबलाम् अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी नारायणी भद्रकाली विष्णुमायाजलोदरी शिवदूतीकराली च अनन्ता परमेश्वरी कात्यायिनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी य इदं प्रपठे नित्यं, दुर्गा नाम शताष्टकं नासाध्यं विद्यते देवी त्रिषु लोकेषु पार्वती धनं धान्यं सुतं जायाम् अयं हस्तिनमिव चतुर्वर्गं तथा चान्ते लभेन्मुक्तिं च शाश्वतिं कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीम् पूजयेत्परया भक्त्या पठे नाम शताष्टकम् तस्य सिद्धिर्भवेद्देवी सर्वैसुरवरैरपि राजानो दासतां यान्ति राज्यश्रियममाप्नुयात् गोरोचनालक्तकङ्कुम् अनेन सिन्दूरकर्पूरमधुत्रयेण गोरोचनालक्तकककककुङ्कमेण सिन्दूरकर्पूरमधुत्रयेण विलिख्ययन्त्रं विधिना विधिज्ञो भवे सदाधार्यते पुरारे लोमावश्यानिषामग्रे चन्द्रे शतभिषां यते विलिख्य प्रपटे स्तोत्रं स भवे पदम् ॐ श्रीदुर्गादेव्यै नमः